ततः शक्रेण सन्दिष्टश्चित्रसेनो ममान्तितम् प्राप्तः कमलपत्राक्षस च मामब्रवीदथ त्वत्कृतेऽहम् सुरेशेन प्रेषितो वरवर्णिनि प्रियम् कुरु मम चैवात्मनश्च ह शक्रतुल्यम् रणे शूरम् प्रार्थय शुश्रोणि त्वमित्येवम् ततोऽहंसमनुज्ञाता तेन पित्रा च तेन घ तवान्तिकमनुप्राप्ता शुश्रूषितुमरिन्दम त्वद्गुणाकृष्टचित्ताहमनङ्गवशमागता चिराभिलषितो वीरममाप्येषमनोरथः वैशम्पायनुवाच ताम् तथा ब्रुवतीम् श्रुत्वा भृशम् लज्जावृतोऽर्जुनः उवाच कर्णौ हस्ताभ्याम् पिधाय त्रिदशालये दुःश्रुतं मेऽस्तु सुभगे यन्मां वदसि भाविनि गुरुदारैः समानामे निश्चयेनवरानने यथा कुन्ती महाभागा यथेन्द्राणी शची मम तथा त्वमपि कल्याणि न प्रकार्या विचारणा यच्चेक्षिताऽऽसित् विस्पष्टम् विशेषेण मया शुभे तच्च कारणपूर्वम् हि शृणु सत्यम् शुचिस्मिते इयम् पौरववंशस्य जननीमुदितेतिहत्वामहम् दृष्टवांस्तत्र विज्ञायोत्फुल्ललोचनः न मामर्हसि कल्याणि अन्यथा ध्यातुमप्सरः गुरोर्गुरुतरामे त्वम् मम त्वम्